हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे मन्त्रया पुनः श्रीरामराजाभिषेकस्य कैकेयीकृते अनिष्टकर्त्रे प्रतिपादिते कैकेय्या श्रीरामगुणान् वर्णयित्वा तदीयाभिषेकस्य समर्थनम् तदनुकुब्जया पुनः श्रीरामराज्यस्य भर्ताय भयोत्पादकत्वम् प्रतिपाद्य कैकय्या मनसि भेदभावोत्पादनम् मन्त्रैनाम् उत्सृजाभ्यगणम् हि चेत् उवाचेदम् ततो वाक्यम् कोपदुःख समन्वित हाषम् किमर्थम् अस्थाने कृतवत्यसि बालिशे शोकुरसागरमध्यस्थम् आत्मानम् मनसा प्रहसामि त्वां देवी दुःखा विशासति यच्छोचितव्ये रुचासि प्राप्य तं व्यसनम् अहेत् शोचामि दुर्मति तं ते काहि प्राज्ञा प्रहसये अरे सपत्नी पुत्रस्य वृद्धिं मृत्योवागताम् भरतः देव रामस्य राजसाधारणभयम् तद्विचिन्त्य विषन्नास्मि भयम् भीताधिजायते लक्ष्मणो हि महाबाहु रामं सर्वात्मनागतः चत्रुघ्नश्चापि भरतम् काकुत्थं लक्ष्मणो यथा प्रत्यासन्नक्रमेणापि भर्तस्यैव भामिनी राज्यक्रमो विसृष्टस्तु तयोः सर्वद्यवीयसो विदुष क्षत्रचारिथ्य प्राप्त कारिण भयाम से चिंतवात्मज सुभग खिल कौसल्या पुत्रोभे यौवराज्ये नमस शुष्येण दिव्योत्तमीता वसोमतीं प्रीतिम प्रतीता हत विषम उपस्था से कौशल्या दासी वृता तरह प्रेश भविष्य पुत्र प्रेश गतिष्यति राम से परमाश्रिय अवृष्टा भविष्य सुन श्री भरतक्ष तान् दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः रामस्यैव गुणां देवी कैकैः प्रशशंसः धर्मज्ञो गुणवान्दान्त कृतज्ञ सत्यवां शुचिः रामो राज सुेष्ठो यवराज मतोहति भ्रातृन् भृत्यांश दीर्घायु पितृवै तन्तप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् भरतश्चापि रामस्य ध्रुवं वचरम् पितृपयिता मां राजम् अवाप्स्यति नरषभ प्राप्ते दह्यमानेव मन्थरे भविष्यति च कल्याणे किमिदं परितप्यस्त यथा य मन तथा भूयि राघव कौसल्यातिरक्त मम शुश्रूषते बहु राजदी राम से भरत मनते ही यहात्मा यहाँ सुराघव कैकय्या वचन मंथरा भृश दुखिता दीर्घम् उष्णं विश्वस्य कैकेयीमिदमब्रवीत् अनर्थ दर्शिनी मूर्ख्यान् नात्मानमवबुध्यसे शोक वैशनवितीर्णे मज्जन्ति दुःखसागरे भविता राघवो राजा राघवस्य च यस्वतः राजवंशात्तु भरत कैकेयी परिहास्यते न हि राज्ञः सुतः सर्वे राज्ये तिष्ठन्ति भामिनी स्थाप्यमानेषु सर्वेषु सुमननयो भवेत् तस्मात् ज्येष्ठे हि कैकेयी राजतन्त्राणि पार्थिव स्थापयन् चन्दवद्याङ्गी गुणवत् स्तरेष्वपि असौ अत्यन्तनिर्भङ्गनाय तव पुत्रो भविष्यति अरातवेत् सुखेभ्यश्च राजवंशः च वत्सले सहं तदर्थे सम्प्राप्ता सन्तु मां नावबुध्यसे सपत्नी वृद्धो यामे त्वम् प्रदेयं दातुमर्हसि ध्रुवं तु भरतं राम प्राप्य राजम् अकण्टकम् देशान्तरं ले तुमा तु मातुल्यम् भरतो नायिक स्वय सन्निकर्षा च सौहार्दम् जायते साव्रेष् वै भरतः नवशास्त्रोऽपि चत्रुग्न तत्समं गतः लक्ष्मणो हि यथा रामम् तथा भरतम् गतः श्रूयते हि द्रुमक् कश्चित् सन्निकर्षादिति विषयिकाभिः मोचित परमाद्वयात् गुप्ताय रामं सौमित्री लक्ष्मणं चापि राघवे अश्विनोरिवसौ भ्रात्रं लोकेश विश्रुतं तस्मान्न लक्ष्मणे रामे पापं किञ्चित् करिष्यति रामस्तु भरते पापं कुर्यादेव न संशय तस्मात् राजे गृहा देवे वनं गच्छतु राघवे एतद्विचते मह्यं भृशं चापि हितं दवे एवं ते ज्ञातिपक्षस्य श्रियश्चैव भविष्यति यदि चेत् धरतो धर्म पितृं राज्यम् अवाप्स्यति से सुखोचितो बालो रामस्य स जोरिपुः समृद्धार्थश्च न चार्थो जीविष्यसि कथं वशि अभिद्रुतं निवारण्ये किं वेन्द्र गजयुथम् प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि दर्पान् निरा सुता पूर्वं मया राममाता सपत्नीते पत्नी ते कथं वैरं न यदा च रामः पुष्वीम् अवाप्स्यते प्रभूतरत्नाकर्शैलसंयुताम् तदा गमिष्यश्च शुभं पराभवम् सहैव दीना भरतेन भामि यदा हि रामः पुष्वीम् अवाप्स्यते ध्रुवं प्रणयितो भरतो भविशति अतो हि सञ्चिन्तय राज्यमात्मजे वास परस्थैव कारणम् इत्यादि श्रीमद् रामायणी अधिकण्डै आच्यमा सर्ग सीतारामचन्द्रमस्तु